श्रीहरये नमः अथ पञ्चविंशोऽध्यायः मैत्रेय उवाच इति सन्दिश्य बार्हिषधैः अभिपूजितः पश्यतां राजपुत्राणां तत्रैव अन्तर्दधे हरः रुद्रगीतं भगवतः स्तोत्रम् सर्वे प्रचेतसः जपन्तस्ते तपेस्ते पोर् वर्षाणामयुतं जले प्राचीनबर्हिषं शक्थ कर्मस्वास मानसं नारदोध्यादमतद्वज्ञ कृपालो प्रत्यबोधय श्रेयस्त्वं कथमद्राजन् कर्मणात्मनैहसे दुःखघानि शुकावाप्ते श्रेयस्तन्नेकचेष्यते राजोवाच न जानामि महाभाग परं कर्मा पविद्धति दुहिमे विमलं ज्ञानं येनमुच्चैकर्मभिः गृहेषु कूढधर्मेषु पुत्रधाराधनार्थधी न पुत्रधारा परं विधते मूढो भ्राम्यन्संसारवर्त्मसु नारदौ उवाच भो भो प्रजापते राजन पशून् पश्य त्वया ध्वरे संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रसः ये ते स्मरन्तो वैस्सं तव सम्परे तमयः कूटैश्चिद्युत्थितमन्यवः अत्र ते कथयिष्ये मुमितिहासं पुराधनम् पुरञ्जनस्य चरितं निभोत गततो मम आसीत् पुरञ्जनो नाम राजाराजन्बृहश्रमः तस्य अविज्ञातनामासीत् सखाविज्ञातचेष्टितः सोऽन्वेषमाणशरणं बभ्रामप्रथिवीं प्रभुः नानुरूपं यथा विन्दधुत्स विमना इव न साधु मे निता सर्वा भूतले यावतीः पुरः तस्य तस्योपपत्तयें <laughs> तये गता हिमवतो दक्षिणेश्वतसानुषु ततश्च पुरं लक्षितलक्षणां प्राकारोपवन अट्टालपरिघैर् अक्षधोरणैर्वयसै शृङ्गैर् सङ्कुलां सर्वतो गृहैः नीलस्फटिकवैधूर्यै मुक्तामरकथारुणैर्क्लुप्तहर्यस्थलीं दीप्तां श्रिया भोगवतीमिव सभाचत्वारत्याभिर् आघ्रीढायतनापणैः चैत्यत्वजपताकाभिर्युक्तां विध्रुमवेतिभिः पुर्यास्तु बाह्योपवने दिव्यध्रुमलताकुले नधत्विकङ्गालिकुल कोलाहलजलाशये हिमनिर्झर विप्रशमत् कुसुमाकरवायुना चलत्प्रवालविटप नळिनीतटसम्पधि नानारण्यमृगव्रातेर् अनाभाते मुनिव्रतैः आहूतं मन्यते पान्तो यत्र कोकिल कूजितैः यदृश्चयागतां तत्र दधर्ष प्रमथोत्तमा भृत्यैर्दश बिरायान्ते एकैकशतनायकैः पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः अन्वेषमाणां वृषभम् अप्रौढां कामरूपिणीं सुनासां सुधतीं बलां सुखपोलां वराननां समविन्यस्तकर्णाभ्यां बिप्रतीं विसङ्घनीवीं सुश्रोणीं श्यामां कनकमेकलां पद्भ्यां कणदभ्यां चलन्तीं नोपुरैर्देवतामिव स्तनौ व्यञ्चितकैशोरौ समवृद्धौ निरन्तरौ वस्त्रान्तेन निगूहन्तिं रेडया गजगामिनीं तामागललितं वीर्य स्फीटस्मितशोभना स्निग्धेन अभाङ्गपुङ्केन स्पृष्टप्रमोद्भ्रमत् ब्रू का त्वं कञ्झपला साक्षी कस्यासीकुतः सती इमामुपपुरीं भीरो किं चिकीर्षसि संस मे कयेते नुपतायेत एकादशमहाभटाः एता वा कोयं ते हिः पुरःसरः त्वं क्रीर्भवान् यस्य तवा क्रमापतिं विचिन्वती किं मुनिभद्रहो वने त्वधङ्क्रिकामाप्तसमस्तकामम् क्वपद्मकोश पतितः कराघ्रा नासाम्बरोर्वन्यतमा भुविष्पृ पुरीमिमां वीरवरेण साकम् अर्शि अयलङ्कर्तुं लोकं परं श्रीरिव यज्ञपुंसा त्वयोपसृष्टो भगवान् मनोभव प्रभातते ते तानुगृहाणशोभने त्वदाननं शुभ्रुसुधारलोचनं व्याळम्बिनीलालकवृन्दसंवृतम् उन्नीय मे दर्शय वल्गुवाचहं यत् ब्रीडयानाभिमुखं शुचिस्मि इत्थं पुरंजनं नारी याचमानमधीरवत् अभ्यनन्दततं वीरं हसन्ती वीरमोहिता न विधाम वयं सम्यक् कर्तारं पुरुषर्षभा आत्मनस्य परस्यापि गोत्रं नाम विहाद्य सन्तमात्मानं विधामनततः परं येन निर्मिता वीर भुरि शरणमात्मनः एते सखायसख्यो मे नरा सुप्तायामयि जागर्ते नागोयं पालयन्पूरी दिष्ट्या गतोऽशि भद्रं ग्राम्यान् कामानभीप्से उद्वहिष्यामि दां स्तेहं सभन्तु बिररिन्दमः इमां त्वं मदि तिष्ठस्व पुरीं नवमुखीं विभो मयोपतीनां गृह्णान् रमहे ह्यरधिज्ञम् अकोविधम् असम्परायभिमुखम् अस्वस्थनविधम् पशुम् धर्मो ह्यत्रार्थकामौ च प्रजानन्दो मृतं यशः लोकाविशोका विरजायान्न केवलिनो विदुः पितृदेवर्षिमर्त्यानां भूतानाम् आत्मनश्च क्षेम्यं वदन्ति शरणम् भवेस्मिन् यद्गृहाश्रमः का नाम वीरविख्यातं पधान्यं प्रियदर्षणं न वृणेतप्रियं प्राप्तं मातृशी द्वातृशं पथिं कस्यामनस्ते बुभि भोगि भोगयो स्त्रिया न सज्जेद्बुजयोर्महाभुज भुझय। यो ना तवर्घातिमलं गृणोद्धत स्मितावलोकेन शरत्यपोहीतुं नारद उवाच इति तौ दम्पती तत्र समुद्य समयमितः तां राजन् मुमुदा ते सतं उभगीयमानो ललितम् तत्र तत्र च गायकैः क्रीडन् परिवृतस्त्रीभे हरदिनीम् आविचक्षुषौ सप्तोपरि कृता द्वार पुरस्तस्यास्तु द्वे अधः पृथक् विषयगत्यर्थं तस्यां यः कश्चनैश्वरः दक्षिणैका ततोत्तर पश्चिमे द्वे अमूषां ते नामानेन्रपवर्णयें कत्योथाविर्मुखी च प्राग्द्वारौवेकत्र निर्मिते विभ्राजितं जनपदं याति ताभ्यां द्युमत्सकः नळिनी नालिनी च प्राग् अवधूतसखस्थाभ्यां विषयं याति सौरभं मुख्या नाम विषयौ याति पुरराड् रसज्ञविपणान्वितः पितृहूरपुर्याध्वार् दक्षिणेन पुरञ्जनः राष्ट्रं दक्षिणपञ्चालम् यादिश्रुतधरान्द्वितः देवहोर्नाम पुर्याध्वा उत्तरेण पुरञ्जनः राष्ट्रम् उत्तरपञ्चालं यादिश्रुतधरान्वितः आसरी नाम पश्चात् द्वास्तया याति पुरञ्जनः ग्रामकं नाम दुर्मधेन समन्वितः निरुधिर्नाम पश्चाद् द्वास्तया पुरंजनः पुरञ्जनः वयससं नाम विषयम् लब्धकेन समन्वितः अन्धावमीषां पौराणां निर्वाकवेशकृधाुभौ अशन्वतामधिपति धाप्यां यादि करोति स हर्ह्यन्तपुरगतो विशूचीन समन्वितः मोहं प्रसातं हर्षं वा यातिजायात्मजोद्भवम् एवं कर्मसु कामात्मा वञ्चितोभूतः महिषी यद्यदीह्येत तत् तथेव अन्ववर्तत क्वचित् बिभत्या मदिरामदविह्वलः अस्नन्त्यां क्वचित् अश्नाति जक्षत्यां सखषशीतिं क्वचित् गायति गायन्त्यां रधत्यां रुधति क्वचिन् क्वचित् कसन्त्यां कसति जल्पन्त्यामनुजल्पति क्वचित् धावति धावन्त्यां तिष्ठन्त्यामनुतिष्ठति अनुशेतसयानायाम् अन्वास्ते क्वचिदासतिं क्वचित् शृणोति शृण्वन्त्यां पश्यन्त्यामनुपश्यति क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् क्वचिच्च शोचतीं जायाम् अनुशोचति दीनवत् ति हृष्यन्त्या मुदिताम् अनुमोदते विप्रलब्धो महिम् सर्पप्रकृतिवञ्चितः नेचन्ननुकरोद्यज्ञ क्लैभ्यात् क्रीडा मृगो यथा इति श्रीमद्भगवते महापुराणे चतुर्थस्कन्ते पुरञ्जनो पञ्चविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहाराज के जय